अथैकत्रिंशः सर्गः स कामिनम् दीनमदीन सत्वं शोकाभिपन्नम् समुदीर्ण कोपम् नरेन्द्रसूनुर्नर देव पुत्रम् रामानुजः पूर्वजमित्युवाच न वा नरस्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान् न बुद्धिः मतिक्षया ग्राम्य सुखेषु सक्तस्तव प्रसादात् प्रतिकार बुद्धिः अतोऽग्रजम् पश्यतु वीरवालिनम् न राज्यमेवम् विगुणस्य जेयम् कोपमुदीर्न वेगम् निहन्मि सुग्रीवमसत्यमद्य हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या करोतु मात्तबाणासनमुत्पतन्तम् निवेदिदार्थम् रणचण्डकोपम् उवाच रामः परवीरहन्ता स्ववीक्षितम् सानुनयम् च वाक्यम् न हि वै त्वद्विधो लोके पापमेवम् समाचरेत् कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः ताम् प्रीतिमनुवर्तस्व पूर्ववृत्तम् च सङ्गतम् सामोपहितयावाचा वृक्षाणि परिवर्जयन् भक्तुमर्हसि सुग्रीवम् यतीतम् कालपर्यये स्वग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः प्रविवेशपुरीम् वीरो लक्ष्मणः परवीरः ततः शुभमतिः प्राज्ञो प्रियहिते रतः लक्ष्मणः प्रतिसंरब्धो जगामभवनम् कपेः शक्रबाणासनप्रख्यम् धनुः कालान्तकोपमम् प्रगृह्यगिरिशृङ्गाभम् मन्दरः सानुमानिव यथोक्तकारी वचनमुत्तरम् चैव सोत्तरम् बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना प्रभञ्जन इवा प्रेतः प्रययौ लक्ष्मणस्ततः सालतालाश्वकर्णांश्च तरसा पातयम् बलात् पर्यस्यङ्गिरिकूटानि द्रुमानन्यांश्च वेगितः शिलाश्च शकलीकुर्वन् पद्भ्याम् गज इवाशुगः दूरमेकपदम् त्यक्त्वा ययौ दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धाम् गिरिसङ्कटे रोषात् प्रस्फुरमाणोष्ठस्वग्रीवम् प्रति लक्ष्मणः ददर्श वानरान् भीमान् किष्किन्धायाम् तान् गृहीतप्रहरणान् सर्वां दृष्ट्वा तु लक्ष्मणः बभूवद्विगुणम् क्रुद्धो बह्व्यम् धन इवानलः तन्ते भयपरीताङ्गा क्षुब्धम् दृष्ट्वा प्लवङ्गमाः कालमृत्युयुगान्ताभम् शतशो विद्रुता दिशः ततः प्रविश्य हरिपुङ्गवाः क्रोधमागमनम् चैव लक्ष्मणस्य न्यवेदयन् तारया सहितः सक्तः कपिवृषस्तदा न तेषाम् कपि सिंहानाम् शुश्राभवचनम् तदा ततः सचिव सन्दिष्टा हरयोरोमहर्षणाः गिरिकुञ्जर मेघाभावगरान्निर्ययौस्तदा नखदंष्ट्रायुधाः सर्वे वीराविकृतदर्शनाः सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः दश नागबला केचित् केचिद्दश गुणोत्तराः केचिन्नागसहस्रस्य बभोवस्तुल्यवर्चसः ततस्तैः कपिभिर्व्याप्ताम् द्रुमहस्तैर्महाबलैः अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धाम् ताम् दुरासदाम् ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतम् तदा सुग्रीवस्य प्रमादम् च पूर्वजस्यार्थमात्मवान् दृष्ट्वा क्रोधवशम् वीरः पुनरेव जगामसः स तम् दीप्तमिव कालाज्ञम् नागेन्द्रमिव कोपितम् समासाद्याङ्गदस्त्रासाद्विषादमगमत्परम् सोऽङ्गदम् रोषताम् राक्षः सन्दिदेशमहायशाः सुग्रीवः कथ्यताम् वत्सममागमनमित्युत एष रामानुजः प्राप्तस्तत्सकाशमरिन्दम भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः इत्युक्त्वा शीघ्रमागच्छवत्स वाक्यमरिन्दम लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोङ्गदोऽब्रवीत् पितुः समीपमागम्य सौमित्ररयमागतः अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः निर्गत्य पूर्वम् नृपतेस्तरस्वी ततो रुमायाश्चरणौ पादौ पितुरुग्रतेजा जग्राहमातुः पुनरेव पादौ पादौ रुमायाश्च निपीडयित्वा निवेदयामास तततस्तदर्थम् ततः किल किलाम् चक्रुर्लक्ष्मणम् प्रेक्ष्यवानराः प्रसादयन्तस्तम् क्रुद्धम् भयमोहितचेतसः ते महौघनिभम् दृष्ट्वा वज्राशनि समस्वनम् सिंहनादम् समम् चक्रुर्लक्ष्मणस्य समीपतः तेन शब्देन महता प्रत्यबुध्यतवानरः मदविह्वरताम्राक्षो व्याकुलस्रग्विभूषणः अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ मन्त्रिणौ वानरेन्द्रस्य सम्मतो दारदर्शनौ प्लक्षश्चैव प्रभावश्च मन्त्रिणामर्थधर्मयोः वक्तुमुच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः प्रसादयित्वा सुग्रीवम् वचनैः सार्थनिश्चितैः सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ मनुष्यभावम् सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वा नराः स लक्ष्मणो वाक्यसारथिः व्यवसाय रामस्य शासनात् अयम् च तनयो राजंस्तारायादयितोऽगः लक्ष्मणेन सकाशम् ते प्रेषितस्त्वरया नघ सोऽयम् रोषपरीताक्षो द्वारितिष्ठति वीर्यवान् वानरपते वानरा चक्षुषा निर्दहन्निव तस्य मूर्ध्ना प्रमाणम् त्वम् स महाराज रोषो यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः राजं स्तिष्ठस्व समये भव सत्यप्रतिश्रवः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धा काण्डे सर्गः